सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च याज्ञवल्क्यम् कठञ्चैव कलापञ्चमहौजसम् सर्वांश्च विप्रवरान् पूजयामास सत्कृतान् युधिष्ठिर उवाच युष्मत्प्रभावात्प्राप्तोऽयं राजसूयो महाक्रतुः जनार्दनप्रभावाच्च सम्पूर्णो मे मनोरथः वैशम्पायन उवाच अथ यज्ञम् समाप्यान्ते पूजयामास माधवम् बलदेवम् च देवेशम् भीष्माद्यांश्च कुरुतमान् समापयामासचतम् राजसूयम् महाक्रतुम् तम् तु यज्ञम् महाबाहुरा समाप्तेर्जनार्दनः ररक्ष भगवाञ्छौरिः शार्ङ्गचक्र गदाधरः ततस्त्ववभृतस्नानम् धर्मात्मानम् युधिष्ठिरम् समस्तम् पार्थिवम् क्षत्रमुपगम्येदमब्रवीत् दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यम् प्राप्तवानसि आजमीढाजमीढानाम् यशः संवर्धितम् त्वया कर्मणैतेन राजेन्द्र धर्मश्च सुमहान् कृतः आपृच्छामो न रव्याघ्र सुपूजिताः स्वराष्णि गमीष्यामस्तुमर्हसी श्रुवा वचनं वचनम्राजा धर्मराजो युधिष्ठि यथारहम पूज्य सर्वये वैते प्रत्यास्मान राजगता